बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणं त्रि ओम् अध हैनं भुज्युर्लाह्यायनिः पप्रत्ययाज्ञवल्क्ये दिहोवाच मद्रेषु चरकाः पर्यव्रजामते पतञ्जलस्य काप्यस्य गृहाणैम तस्यासीद् गन्धर्वगृहीता तम पृच्छाम कोसीदि सोऽब्रवीत् सुधन्वाङ्गिरस इति तैयदा लोकानां मन्दानपृच्छा माधैनमभ्रूमक्व पारिक्षिता अभवन्निधिक्व पारिक्षिदा अभवन् सत्त्वा पृच्छामि याज्ञवल्क्यक्व पारिक्षिता अभवन्निधि वाच वै सो गच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्ति दिक्कुन् वश्वमेधयाजिनो गच्छन्ति दिद्वा त्रिगुं शतं वै देवरदाह्यल्लोगस्तगुम् समन्दं पृथिवी द्विस्तावत् पर्येदि रागुं समन्दं पृथिवी द्विस्तावत् समुद्रः पर्येधि तद्यावधिक्षुरस्य धारा यावद्वा मक्षिकायाः पत्रन् तावानन्तरेणाकाशस्था निद्रः सुपर्णो भूत्वा वायवे प्रायच्छतान्वायु त्मनिधित्वा तत्रागमयद्यत्रास्वमेधया जिनो भवन्नित्येवमिव वै स वायुमेव प्रशशगुंस तस्माद्वायुरेव व्युष्टिर्वायुः समष्टिरप पुनर्मृत्युञ्जयधिय एवं वेद ददोह भोज्योर्लाह्याय निरुपरराम यदि तृतीयोऽध्याये तृतीयं ब्राह्मणम् ॐ बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणं फोर् ओ अध हैनमुषस्ताक्रायणः याज्ञवल्क्ये दिवोवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येषद आत्मा सर्वान्तरकदमो याज्ञवल्क्यसर्वान्तरो यः या प्राणेन प्राणिधिः सद आत्मा सर्वान्तरो योपानेनापानिधि सद आत्मा सर्वान्तरो योऽव्यानेनव्यानिधि सद आत्मा सर्वान्तरो य उदानेनोदा निधि सद आत्मा सर्वान्तर एषद आत्मा सर्वान्तरः सहो वाच्योषस्थ तश्चाक्रायणो यथा विब्रूयादः सौ गौरसावश्वयित्येवमेवै तद्व्यपदिष्ठं आत्मा सर्वान्तरस्थं मेव्याचक्ष्वेत्येषत आत्मा सर्वांधरकदमो याज्ञवल्क्य सर्वान्तरो दृष्टेर्द्रष्टारं पश्येर्न श्रुते श्रोता रगं शृणुया न मदेर्मारं मन्वीधान विज्ञातेर्विज्ञातारं विजानिया येषद आत्मा सर्वान्तरोतोऽन्यथार्तन्ततो होषस्तश्चाक्रायण उपरराम इति तृतीयोऽध्याये चदुर्धं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणं फैव् ओ अध हैनङ्ककोलकौषेदकेयः पप्र च याज्ञवल्क्ये दिहोवाच यदेव साक्षाद ब्रह्म य आत्मा सर्वान्तरस्थं मे व्याचक्ष्वेत्येषत आत्मा सर्वान्तरकदमो सर्वांतरो योचनायापि पास्ये शोकं मोकञ्जरां मृत्युमध्येत्येदं वै तमात्मानं विदित्वा ब्राह्मणा पुत्रैषणा याश्च वित्तैषणायाश्च लोकैषणायाश्च व्युद्धा यादभिक्षाचर्यं चरन्ति यास्येव पुत्रैषणा सा वित्तैषणाया वित्तैषणा सा लोकैषणो भेक्ष्येदे येषणे एव ये भवदस्तस्माद्ब्राह्मणपाण्डित्यं निर्विद्य बाल्येन तिष्ठा चेद् बाल्यं च मौनञ्च निर्विद्याधब्राह्मणः स ब्राह्मणः केन स्याध्येन स्यात्ते नेदृश एवातोऽन्यदार्तन्ततोः कहोलकौशीदकेय उपरराम इति तृतीयोऽध्याये पञ्चमं ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणं सिक्स् ओम् अध हैनङ्गार्गी वाचग्नवीपप्रच्छ याज्ञवल्क्येदि होवाच यदि दघं सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु कन्वाप खण्वाप वो ताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोक्तश्चप्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीदिकस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेदि गन्धर्वलोकेषु गार्गीदिकस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीदिकस्मिन्नु खवादित्यलोका ओताश्च प्रोताश्चेदि चन्द्रलोकेषु गार्गीदिकस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोदाश्चेदि नक्षत्रलोकेषु गार्गीधिकस्मिन्नु खलु नक्षत्रलोका वोदाश्च प्रोदाश्चेदि देवलोकेषु गार्गीधिकस्मिन् खलु देवलोका ओताश्च प्रोदाश्चेदीन्द्रलोकेषु गार्गिधिकस्मिन्नु खल्वीन्द्रलोका ओताश्च प्रोदाश्चेदिप्रजापदिलोकेषु गार्गिदिकस्मिन्नु खलु प्रजापदिलोका ओदाश्च प्रोदाश्चेदि गार्गिदिकस्मिन्नु खलु ब्रह्मलोका पोताश्च प्रोताश्चेदि सहोवाच गार्गि माधिप्राक्षीर्माते मूर्धा व्यपप्तदनधिप्रश्न्यां वै देवतामधिपृच्छसि गार्गि माधिप्राक्षीरिति तदोह गार्गिवाच्नव्युपरराम इति तृतीयोऽध्याये षष्ठं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणं सवन् ओ अथ हैनमुद्दालक आरुणि पप्रच्छयाज्ञवल्क्ये दिहोवाच मद्रेष्वसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्या गन्धर्वगृहीता तमपृच्छामकोऽसीदि सोऽब्रवीत् कबन्ध आधर्वण इति सोऽब्रवीत् पतञ्चलङ्काप्यै याज्ञिकागुश्च वेद्धनु त्वं काप्य तत्सूत्रयेनायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृग्धानि भवन्तीदि सोऽब्रवीत् पतञ्चलकाप्यो नाहं तद्भगवन्वेदेधि साउ सौब्रवीत् पतञ्चलङ्काप्यययाज्ञिकागुश्च वेत्थनुत्वं काप्यतमन्तर्यामिणय्य इमं च लोकं परं च लोकगुं सर्वाह्नि च भूतानि योऽन्तरो यमयतीति सोऽब्रवीत् पतञ्चलकाप्यो नाहन्तं भगवन्वेदेधि सोऽब्रवीत् पतञ्चलङ्काप्ययाज्ञि कागिश्च यो वै तत्काप्यसूत्रं विद्या तञ्चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स सर्वविदितेभ्यो ब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्यसूत्रमविद्वागुंस्तञ्चान्दर्यामिणं ब्रह्मकविरुदजसे मूर्धादे विपतिष्यति वेद वा अहं गौतमतत्सूत्रं तञ्चान्दर्यामिणमिति यो इदं कश्चिद् ब्रूयाद्वेदवेदेति यथा वेद्ध तथा ब्रूहीति सहोवाच वायुर्वै गौतमतत्सूत्रं वायुना वै गौतमसूत्रेणायं च लोकः परश्च लोकस्सर्वाणि जभूतानि सन्दृग्धानि भवन्ति तस्माद् वै गौतमपुरुषं प्रेद माहुल्यस्रघुंसिषदास्याङ्गानीधि वायुना हि गौधमसूत्रेण सन्दृद्धानि भवन्तीत्येव मे वैदध्याज्ञवल्क्यान्धर्यामिणं ब्रूहीति यः पृथिव्यान् तिष्ठन् पृथिव्या अन्तरोऽयं पृथिवी न वेदयस्य पृथि॒वी शरीरय्यःपृथिवीमन्तरो यमयत्य शद आत्मान्दर्याम्यमृतः योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विधुर्यस्यापश्शरीरय्योऽन्तरो यमयत्य शत आत्मान्दर्याम्यमृतः योऽग्नौ तिष्ठन्नग्नेरन्धरो यमग्निर्न वेद यस्याग्निशरीरय्योऽग्निमन्धरो यमयत्येषत आत्मान्तर्याम्यमृतः योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षन्न वेद यस्यान्द रिक्षगुं शरीरयोन्तरिक्षमन्तरो यमयत्येषत आत्मान्दर्याम्यमृतः यो वायौ तिष्ठन्वायोरन्धरोऽयं वायुर्न वेद यस्य वायुशरीरय्यो वायुमन्तरो यमयत्येषत आत्मान्दर्याम्यमृतः यो दिवि तिष्ठन् दिवोन्तरो यन्द्यौर्नवेद यस्य द्यौशरीरय्यो दिवमन्तरो यमयत्येषद आत्मान्दर्याम्यमृतः य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यशरीरय्य आदित्यमन्तरो यमयत्येषद आत्मान्दर्याम्यमृतः यो दिक्षु तिष्ठन् दिग्भ्योन्दरो यन्दिशो न विदुर्यस्य दिश शरीरयो दिशोन्दरो यमयद्येषत आत्मान्दर्याम्यमृतः यश्चन्द्रतारके तिष्ठघ्रिश्चन्द्रतारकादन्तरो यञ्चन्द्रतारकन्नद यस्य चन्द्रतारकं शरीरै यश्चन्द्रतारकमन्तरो यमयत्येषत आत्मान् दर्याम्यमृतः य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशशरीरय्य आकाशमन्दरो यमयत्येषद आत्मान्दर्याम्यमृतः ह्यस्तमसि तिष्ठिस्तमसोन्दरो ह्यन्तमो नवेद यस्य तमःशरीरय्यस्तमोन्दरो यमयत्येषद आत्मान्तर्याम्यमृतः यस्तेजसि तिष्ठ गस्तेजसोन्तरो यन् तेजो न वेद यस्य तेजःशरीरै यस्तेजोन्तरो यमयत्येषद आत्मान्तर्याम्यमृद इत्यधिदैवतमदाधिभूतं यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यगुं सर्वाणि भूतानि न विदुल्यस्य सर्वाणि भूतानि शरीरयः सर्वाणि भूतान्यन्तरो यमयत्येषत आत्मान्तर्याम्यमृद इत्यधिभूतमदाध्यात्मम् यः प्राणे तिष्ठन् प्राणादन्तरोऽयं प्राणो नवेद यस्य प्राणशरीर यः वाङ्नवेद यस्य वाक्शरीरयो वाजमन्तरो यमयत्येषद आत्मान्दर्याम्यमृतः यश्चक्षुषि तिष्ठ गुश्चक्षुषोऽन्तरो यं चक्षुर्नवेद यस्य चक्षुश्चरीरयश्चक्षुरन्तरो यमयत्येषद आत्मान्दर्याम्यमृतः यःश्रोत्रे तिष्ठन् श्रोत्रादन्तरो यगुश्रोत्रन्नवेद यस्य श्रोत्रगुं शरीरय्यश्रोत्रमन्तरो यमयत्येषद आत्मान्तर्याम्यमृतः यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरय्यो मनोन्तरो यमयत्येषद आत्मान्दर्याम्यमृदः यस्त्वचितिष्ठग्स्त्वजोऽन्तरोऽयं त्वं न वेद यस्य त्वक् शरीरै यस्त्वजमन्तरो यमयत्येषद आत्मान्दर्याम्यमृतः यो विज्ञाने तिष्ठन् विज्ञानादन्तरो वेदयस्य विज्ञानघं शरीरय्यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः यो रेदसि तिष्ठन् रेदसोन्तरो यगं रेदो नवेदयस्य रेदशरीरयो यमयत्येषद आत्मान्तर्याम्यमृदो दृष्टो द्रष्टा श्रुतश्रोदा मदो मन्दा विज्ञादो विज्ञादा नान्यतोस्ति द्रष्टा नान्योतोस्ति श्रोदा नान्योतोस्ति मन्दानान्योऽतोऽस्ति विज्ञातयिषद आत्मान्तर्याम्यमृतोतोऽन्यदार्तन्ततोद्घोद्दालक आरुणिरुपरम इति तृतीयोऽध्याये सप्तमं ब्राह्मणम् बृहदारण्य उपनिषत् अध्यायं त्रि ब्राह्मणम् 8 ओ, वाचक्न अधहवाचक्नव्यवाचब्राह्मणा भगवन्दो हन्तागमिमन्द्वै प्रश्नौ प्रक्ष्यामितौ चेन्मे वक्ष्यति न वै जादुयुष्मागमिमं कश्चिद्ब्रह्मोद्यं चेते पृच्छगार्घीति सहो वाचाक वैत्वा याज्ञवल्य यहाँ वै देहो वोग्रपुत्र उज्ज्यंधनुरधिज्यंक सपत्व्यानौस्ते देववाहंवाद्याभ्यां प्रश्नाभ्यामुपो दस्तान्तौ मे दि पृच्छगार्गीति सा होवाच यदूर्ध्व याज्ञवल्क्य दिवो यदवापृथिव्या यदन्तरा ध्या वापृथिवी इमे यद्भूदं च भवच्च भविष्यच्चेत्या चक्षदे कस्मिघ्स्तदोदं च प्रोदं चेति सहोवाज यदूर्ध्वं गार्गि दिवो यद् वा पृथिव्या यदन्तराद्या इमे यद्भूदं च भवच्च भविष्यच्चेत्या चक्षद आकाशे तदो दं च प्रोदं चेति साहोवाज नमस्तेऽस्तु याज्ञवल्क्ययोम ये परस्मै धारय पृच्छ गार्गीति साको वाच यदूर्ध्वै याज्ञवल्क्य दिवो यदवा पृथिव्या यदन्तराद्या वा इमे यद्भूदं च भव चेत्या भविष्यच्चेत्या चक्षदे कस्मिघ्स्तदोदं च प्रोदं सहो वाचय सहोवाचयदूर्ध्वं गार्गि दिवो यदवापृथिव्या यदन्तराद्या वापृथिवी इमे यद्भूदं च भवच्च भविष्यच्चेत्याचक्षत आकाश तदो एवस्तदोदं च प्रोदं चेदि कस्मिन्नु ख्वाकाशवोदश्चप्रोदश्चेदि सहो वाचैतद्वैतदक्षरं गार्गिब्राह्मणा अभिवदन्ध्यस्थूलमनन् व्रस्वमदीर्घमलोहितमस्नेहमच्छायमदमो वायुनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोत्तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यन्न तदश्नाधि किञ्चन तदश्नाति कच्छन दस्यवा अक्षरस्य प्रशासने गागि सूर्याचंद्रमसौ विधृत ठतत ये दस्यवा अक्षर से प्रशास गार्गिद्या वा विधृदे विधृते तिष्ठतयेदस्य वा अक्षरस्य प्रशासने गार्गिनिमेष मुहूर्ता अहोरात्रान्यर्थमासा मासा ऋतवः संवत्सरा यदि विधृतास्तिष्ठन्त्येदस्य वा अक्षरस्य प्रशासने गार्गिप्राच्योन्यानद्यस्य दन्तेष्वेतेभ्य पर्वतेभ्य प्रतीच्योन्यायायां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्या प्रशगुंसन्ति यजमानन्देवादर्वीपितरोऽन्वा यत्ताः यो वा एतदक्षरं गार्घ्यविदित्वाऽस्मिल्लोके तपस्तप्यदे बहुनिवर्ष वर्षसहस्राण्यन्धवदेवास्य तद्भवति एतदक्षरं गार्घ्यविदित्वाऽस्माल्लोकात् प्रैदिश कृपणोध य एतदक्षरं गार्गे विदित्वाऽस्माल्लोकात् प्रैदिशब्राह्मणः तद्वा एतदक्षरं गार्ग्यदृष्टन् द्रष्टश्रुदग् श्रोत्रमदम् मन्द्रविज्ञातं विज्ञातृणान्यदत्तोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्द्र नान्यदतोऽस्ति विज्ञात्रे तस्मिन्नु खल्वक्षरे भार्ग्याकाश ओतश्च प्रोतश्चेति सा को वाचब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वै यदस्मान्नमस्कारेण मुच्येध्वन्न वै जातुयुष्माकमिमं कश्चिद्ब्रह्मोऽध्यञ्जेदेधि ततो ह वाचग्नव्युपरराम इति तृतीयाध्याये अष्टमं ब्राह्मणम् Om um.